हरि ओम् अथ श्रीमद्देवी महापुराणे महात्म्ये पञ्चमोऽध्यायः ऋषयौषु श्रुतसुत महाभागश्रुतम् महात्म्यमुत्तमम् अधुना श्रोतुमिच्छाम पुराणश्रवणे विधिम् श्रुत उवाच श्रूयताम् यत् सर्वे पुराणश्रवणे विधिम् नराणां शृण्वताम्बेन सिद्धिः स्यात् सार्वकामिकी आदोदयवद्यमाहूय मुहूर्तं कल्पये सुरी आरभ्य शुचिमासं तु मास षट्कम् शुभावहम् हस्ताश्रीमूलक्षे पुछक, ब्रह्म मैत्रेन्दुवैष्णवे तत्तिथौ शुभवारे च पुराणश्रवणं शुभम् गुरुभाब्ज वेद शराङ्गाब्धि गुणक्रमात् धर्माप्तिरिन्दिराप्ति कथासिद्धि परम् सुखम् पीडाथ भूपते भयम् ज्ञानप्राप्ति क्रमात्फलम् पुराणश्रवणे चक्रम् शोधये चिव अथवा प्रीतये देव्या चतुष्टये। शृणुयात् अन्यमासेऽपि प्रतिवार वृक्षशोधिते संहारादृशं कार्यम विवाह दोच यादृश न वाहय ये चाप्यस्म विधेय युध स्वाहा बहवोभ विवर्जिता चतुरा देवी भक्ति पेशा यने वापेय देशे देशे जने जने आगतव्यम इश्यं कथा दिव्या भविष्य सौराश्च गणपत्या च शैवा शाक्ता च वैष्णवः सर्वेषामपि सेवेयम् यतो देवासजक्तयः श्रीमद्देवी भागवते पीयूषरसलोलुपै आगन्तव्यम् विशेषेण कथार्थम् प्रेम तत्परै ब्राह्मणाद्या च ये वर्णाश्रियश्चाश्रमेश्रमेणस्तथा सकामा चापि निष्कामा पातव्यम् तैः कथामृतम् नावकाशे कदाचिथ्यान् न वा हे श्रवणेऽपि तैः आगन्तव्यम् यथा कालम् यज्ञे पुण्याक्षणस्थितिः विनयेनैव कर्तव्यम् एवम् आकारणम् नृणाम् आगतानाञ्च कर्तव्यम् वासस्थानम् यथोचितम् कथास्थानम् प्रकर्तव्यम् भूमौ मार्जनपूर्वकम् लेपनम् गोमयेनाथ मनोरमम् कार्यस्तु मण्डपो रम्यो रम्भाम्भास्तम्भोपशोभितः पितानमुपरि स्थातु पताक ध्वजराजितः वक्तुश्चैवासनं दिव्यम् सुखा रणसंयुतम् रचितव्यम् प्रयत्नेन प्राङ्मुखम् वा प्यदङ्मुखम् अथोचितानि कुर्वितशतॄणामासनानि च नृणाञ्चवाथ नारीणाम् कथा श्रवणहेतवे स्वागत शास्त्रो दिव्याराधन तत्पर है दयालुनो दक्ष धीरो वक्त मत है ब्रह्मण्यो दैवता भक्त पारायण है उदारो लुपो नम्र श्रोता हिंसा दिवर्जि है पाखंड नृत्य लुनो धर्म ध्वज तथा निष्ठुर क्रोधनो वक्ता देवी यज्ञ संशयच्छेदनायैक पण्डितश्च तथा गुणः श्रोतृबोधये कुतव्यग्र कार्यो वक्तुः साहाय्यकरोत् मूर्तदिवसादरवक्तृ श्रोत्रादिभ्यजनैः कर्तव्यं क्षौरकर्मादि ततो नियमकल्पनम् अरुणोदयवेलायां स्नायाच्छौचं स्नाया विधाय च सन्ध्यातर्पणकार्यञ्च नित्यं सञ्चेपतश्चरेत् कथाश्रवणयोग्यत्वसिद्धयेगा च सिद्धये समस्तविघ्न हर्तारम् आदौ गणपतिं यजेत् कलशाञ्चापि संस्थाप्य पूजये तत्र दिग्भवान् वटुकम् क्षेत्रपालञ्च योगिनी मातृकास्तथा तुलसीञ्चापि सम्पूज्ये गृहान् विष्णुञ्च शङ्करम् नवाक्षरेण मनना पूजयेत् जगदम्बिकाम् सर्वोपचारी सम्पूज्य श्रीमद्भागवत पुस्तकम् श्रीदेव्या वाङ्मयीं मूर्तिं यथा वक्षो वनाक्षरम् कथाविघ्नोपशान्त्यर्थं रुणुयात् पञ्चबाणवान् जाप्यो नवर्णमन्त्री पाठ्य सप्तशतिस्तव प्रदक्षिणान् नमस्कारान् कृत्वा ते स्तुतिमाचुरे कात्यायने महामाये भवान् संसारसागरे मग्नं मामुद्धरे कृपामये ब्रह्मविष्णु शिवराध्ये प्रसीद जगदम्बिके मनोऽभिलिषितं देवी वरं देही नमोऽस्तु इति सम्प्रार्थ्य शृणुयात् कथां नियतमानतः वक्तारञ्चापि सम्पूज्य व्यासबुद्ध्यायतात्मान् माल्यालङ्कारवस्त्राद्ये सम्भुच्य प्रार्थम् सर्वशास्त्रेतिहासज्ञ नमोऽस्तु कथाचन्द्रोदे कुरु तदग्रे तूनवाहन्तं कर्तव्य नियमास्त विप्रादीन्पवेश्य दोसम्पूज्यो रूपं सावधानेन चतुर्वर्ग फलाप्रिये गृहपुत्र करत्रा धनचिन्तामपास्य च सूर्योदयम् समारभ्य किञ्चित् सूर्योऽवशेषते मूर्तमात्रम् विश्रम्य मध्याह्ने वा ते सुरी मन्मुत्र येषां लघु भोजनमिष्यते हविन्नम्बरं भोजम् चकृदेव कथार्थिनः अथवा स्यात्फलाहारी पयो भुग्वा हुताशनः यथा स्यान्नः तथा कार्यम् विचक्षणे थाश्रवणनिष्ठानां वक्ष्या मे निजा महेशानां मध्ये ये भेददर्शिनः देवी भक्तिविहीना ये पाखण्डा हिंसका कला पिप्रगृहो नासिकायै न ते योग्या कथाश्रवे ब्रह्मस्व हरणे रुब्धा परदार्य धनेषु च देवस्व हरणे तेषां नाधिकार्ये कथाश्रवे ब्रह्मचारी च भूषायी सत्यवक्ताजितेन्द्रिय कथासमाप्तो भुञ्जीत पत्रावल्यामितात्मवान् वृन्ताकञ्च कलिन्दञ्च तैलञ्च द्विदलम् मधु दग्धमन्नम् पर्युषितम् भावदुष्टम् त्यजद्व्रती आमेषञ्च मसूरान्नम् उदक्या दृष्टमेव च रसवनम् उदकम् हिङ्गुम् तथा कुष्माण्डं नलिकाशाकम् न भुञ्जीत कथावृती कामं क्रोधम् दम्भम् मानञ्च वर्जयेत् विप्रधृक्पतितव्राच्य स्वपाक यवनाञ्च यै उदक्षय वेदबाह्यै न वेद्य कथावृती वेद महतां तथा देवानां देवभक्तानां न निन्दां विनयं चाजिवं शोचं दयाञ्च मितभाषणम् उदारं मानसञ्चैव कुर्याद्यस्तु कथावृती स्वित्री कुष्ठी क्षयी रुग्णौ भाग्यहीनश्च पापकृत् दरिद्रश्चानपत्यश्च भक्ति मां शृणुयात् कथाम् वन्ध्या वा काकवन्ध्या का वा दुर्भगा वा मुतार्भका पतद्गर्भाङ्गना या च ताभिः श्राव्या तथा कथा धर्मासकाम मोक्षाश्च यो वाञ्छन्ति विनाश्रमम् भगवत्या भागवतम् श्रोतव्यम् तेन यत्नतः कथादिनानि चैतानि न वै यज्ञे समानये तेषु दत्तम् हुतम् जप्तम् अनन्त फलदम् भवेत् एवं वृतम् न वाहन्तु क्रुद्ध्या पुनर्माचरेत् यद्वत् तथा कार्यम् फलेत्सुभि निष्कामाश्रवणेनैव पूता मुक्तिम् व्रजन्तिः भोगमोक्षे पदा नूणां यतो भगवती परा पुस्तकस्य च भक्तिश्च पूजा कार्या तु नित्यश्च वक्त्रा दत्तम् प्रसादम् तु गृह्णीयाद्भक्तिपूर्वकम् कुमारिः पूजये नित्यम् भोजये प्रार्थये च सुवासिनी च विप्रांश्च तस्य सिद्धिः न कायस्या नाम सहस्रम् समाप्ता अथवा पठेत् विष्णो नाम सहस्रञ्च सर्वदोषोपशान्तयेत् यस्या स्मृत्या च नामोक्त्या तपो यज्ञक्रियादिषु न्यूनं सम्पूर्णतां याति तस्माद् विष्णुञ्च कीर्तयेत् देव्या सप्तशती मन्त्रैः समाप्तोः ममाचरेत् देवी महात्म्यमूलेन गायत्र्य तु अथवा होमपायसेन ससर्पिषा चतुर्भागवतम् चेतत् गायत्रे मयमीरितम् वाचकम् तोषेत् सम्यक् वस्त्रभूषाधनादिभिः प्रसन्ने वाचके सर्वा प्रसन्ना तस्य देवता ब्राह्मणान् भोजयेद्भक्त्या दक्षिणाभिश्च तोषयेत् पृथिव्याम् बलम् सुवासिनी कुमारीश्च देवी भक्त्या भोजये भोजयेत् ताभ्योऽपि दक्षिणाम् दत्त्वा प्रार्थयेत् सिद्धिमात्मनः तद्यादानानि चान्यानि सुवर्णं गापयस्विनि हयानिभान् मेदिनीञ्च तस्य स्यादक्षयम् वरम् देवी भागवतम् चैतलिखितम् शोभनाक्षरम् हेमसिंहास निस्थाप्य पट्चवस्त्रेण वेष्टितम् अष्टम्याम् वा नवम्यां वाचका याचिताय च दद्यात् भोगान् भुक्त्वेव दुर्लभम् मोक्षमाप्नुयात् दरिद्रो तरणो दर बाले तरुणो जरठोऽपि वा पुराणवित्ता वन्द्य स्यात् सर्वदाए मान्यश्च सर्वदा सन्त्यलोकस्य भवजन्मतः सर्वेषामपि तेषां च पुराणरज्ञ परो गुरुः पौराणिको ब्राह्मणस्तु व्यासा स न समाश्रितः असमाप्ते प्रसङ्गे तु नमस्कुर्यान्य कस्यचित् पौराणिकीम् कथाम् दिव्याम् येऽपि शृण्वन्त्य भक्तितः तेषाम् पुण्यफलम् नास्ति दुःखदारिद्र्यभागिनाम् असम्पूज्य पुराणम् तु ताम्बूल्ये कुसुमादिभिः ये शृण्वन्ति कथाम् देव्या ते दरिद्रा भवन्तिः कीर्तिमा कथ त ये नोगा प्रणश्याराश सम येगासनारूढ़ कथ शुण्वती दाभिक ते वा सांत्र भुक्तासन संस्था ये वीरासन संस्थित श्रृण्वी चा दिव्यां ते सूअर्जुन शाखि कथायां कीर्तिमानायां वि वदन्ति दुरुत्तरम् रासभासे भवन्ति हे कृपरम् चिन्दन्ति ये पुराणज्ञान् कथां वा पापहरिणीम् ते जन्मशदं जन्मशतं दुष्टा शूनक शून ये शृण्वन्ति कथां वक्तु समानसु न संस्थिता गुरुतल्प पापं लभन्ते नरकालयाः ये चाप्रणम् य शृण्वन्ति ते भवन्ती विशद्रुमा श्रयामा येऽपि शृण्वन्ति भवन्त्य जगदाहय ये कदाचन पौराणिम् न शृण्वन्ति कथां ते घोरम् नरकम् भुक्त्वा भवन्ति वनसूकराः ये कथाम् नानुमोदन्ते विघ्नम् कुर्वन्ति एषठा कोटब्दम् निरयम् भुक्त्वा भवन्ति ग्रामसूकराः आसनम् भाजनम् द्रव्यम् फलम् वस्त्राणि कम्बलम् पुराणज्ञाम यच्छन्ति ते व्रजन्ति पुराणपुस्तकस्यापि पट्टवसनम् प्रयच्छन्ति <coughs> शुभं सूत्रम् तेन रसुखभागिनः पुराणानाम् तु सर्वेषां श्रवणाद्य फलम् लभेत् तस्मात् च गुणम् पुण्यम् देवी भागवता लभेत् यथा श्रीसु प्रवरा गंगा देवी शुशंकरहे। सुशङ्करः कविरामायणम् यद्वत् ज्योतिष्मत्सु यथा रवि आह्लादकानाम् चन्द्रश्च धनाञ्च यथा यश क्षमावताम् यथा भूमिः गम्भीर्ये सागरो यथा मन्त्राणाम् चैव सावित्री पापनाशे हरि स्मृति पश्चादशे देवी भागवतम् तथा येन केनाप्युपायेन न कृत्वा शृणोति चेत् न शक्यं तत्फलं वक्तुं जीवन्मुक्तस्यैव हि भये प्राप्ते महामारे भये तथा दुर्भिक्षे राष्ट्रभङ्गे च तच्छान्ते शृणुयादिदम् भूतप्रेतविनाशाय राज्यलाभाय शत्रुतः पुत्रलाभाय शरणया देवी भागवतम् द्विजा श्रीमद्भागवतं यत्तु पठेद्वा शृणुयादपि श्लोकार्धं श्लोकपादं वा स्वयाति परमाङ्गतिम् भगवत्या स्वयं देव्या श्लोकार्धेन प्रकाशितम् शिष्यप्रशिष्यद्वारेण तदेव विपुलीकृतम् न गायत्र्या पुरो धर्मो न गायत्र्या परं तपः न गायत्र्या समो देवो गा न गातारं त्रायते यस्मां गायत्री तेन सोच्यते सत्र भागवते देवी स रहस्याप्रतिष्ठिता अतो भागवतस्यास्य देव्या प्रीतिकरस्य च महान्त्यपि पुराणानि कलां नार्हन्ति षोडशीम् श्रीमद्भागवतम् पुराणमलम् यद्ब्राह्मणानाम् धनम् धर्मो धर्मसुतेन यत्र गदितो नारायणेनामल गायत्रा च रहस्य मत्न च मणि दीपश्च संवर्णित श्रीदेव्या हीम् भूभृते भगवती गीता च गीता स्वयम् तस्मान्नास्ति पुराणस्य लोकोऽन्यसदृशम् परम् अत सदैवम् संसेव्यम् सेवि देवी भागवतम् द्विजा यस्याप्रभावमखिलम् न नो वा हरिणगिरिशो नैचाप्यनन्त अंशांशका अपि च ते किं तान्यदेवा तस्ते नमोऽ सततम् जगदम्बिकायै यत्पादपङ्कजरजे समवाप्य विश्वम् ब्रह्मासुरिश्चनुदिनञ्च विभर्ति विष्णु रुद्रश संवर्तिने तरथा समर्था तस्यै नमोऽस्तु सुतम् जगदम्बिकायये सुराकूपारान्ते त्रिदश तरुवा टी विलसिते मणिद्वीपे चिन्ता मणिमय गृहे चित्ररुचिरे विराजन्तिम् अम्बाम् परशिवरुदि स्मेरवदनाम् नरो ध्यास भोगम् भजसि खलु मोक्षञ्च लभते ब्रह्मेशाच्युतचक्राद्यै महर्षिभिः उपासिता जगतां देवता इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवी भागवतमाहात्म्ये देवी भागवत श्रवण विधि वर्णनम् नाम पञ्चमोऽध्यायः समाप्तम् इदम् श्रीमद्देवी भागवतमाहात्म्यम् श्रीदेव्यार्पणमस्तु